ॐकारं बिन्दुसंयुक्तं नित्यं ध्यायन्ति योगिनः कामदं मोक्षदं च एव ओकार य नमो नमः ओङ्काराय नमो नमः नमन्ति ऋषयो देवा नमन्ति अप्सरसाङ्गणा नरा नमन्ति देवेश नकाराय मकराय नमो नमः महादेवं महात्मनं महाध्यानं परायणं महापापहरं देवं मकराय नमो नमः मकर राय नमो शि लोकानुग्रह जगन्नाथं लोकानुग्रहकारकं शिवमेकपदं नित्यं षिकारायणम् काराय नमो नमः शिकाराय नमो नमः वाहनं वृषभूयस्य वासुकि कण्ठभूषणं वामी देवं वकाराय नमो यत्र यत्र स्थितो देवः सर्वव्यापि महेश्वरः यो गुरुः सर्वदेवान यकाराय षडक्षरम् इदं षडक्षरम् इदं स्तोत्रं यः पठेत् शिवसन्निधो शिवलोकमवाप्नोति शिवेन स शिवेन सह मोदते शिवेन सः